अथैकषष्टितमः सर्गः विश्वामित्रो महातेजाः प्रस्थितान्वीक्ष्यतान् ऋषीन् अब्रवीन्नरशार्दूलसर्वांस्तान् वनवासिनः महाविघ्नः प्रवृत्तोऽयम् दक्षिणामास्थितो दिशम् दिशमन्याम् प्रपत्स्यामस्तत्र तप्स्यामहे तपः पश्चिमायाम् विशालायाम् पुष्करेषु महात्मनः सुखम् तपश्चरिष्यामः सुखम् तद्धि तपो वनम् एवमुक्त्वा महातेजाः पुष्करेषु तप उग्रम् तुराधर्षम् तेपे मूलफलाशनः एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान् अम्बरीष इति ख्यातो पशुरभ्याहृतो राजन् प्रणष्टस्तवदुर्नयात् अरक्षितारम् राजानम् घनन्ति दोषा नरेश्वरा प्रायश्चित्तम् महध्येतम् नरम् वा पुरुषर्षभ आनयः प्रवर्तते उपाध्यायवच श्रुत्वा स राजा सहस्रशः देशाञ्जनपदांस्तांस्तान्नगराणि वनानि च आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः सपुत्रसहितम् तातसभार्यम् रघुनन्दना भृगुतुङ्गे समासीनमृचीकम् सन्ददर्शः तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च महर्षिन्तपसादीप्तम् राजर्षिरमितप्रभः पृष्ट्वा सर्वत्र कुशलमृचीकम् तमिदम् वचः गवांशतसहस्रेण विक्रीणीषे सुतम् यदि पशोरर्थे कृतकृत्योस्मि भार्गवा सर्वे परिगतादेशायज्ञयन्न लभे पशुम् दातुमर्हसि मूल्येन सुतमेकमितो मम एवमुक्तो महातेजा रुचिकस्त्वब्रवीद्वचः नाहम् ज्येष्ठम् नरश्रेष्ठविक्रीणीयाम् कथञ्चन रुचीकस्य वचः श्रुत्वा तेषाम् मातामहात्मनाम् उवाच नरशार्दूलमम्बरीशमिदम् वचः अविक्रेयम् सुतम् ज्येष्ठम् भगवानाः भार्गवः ममापि दयितम् विद्धि कनिष्ठम् शुनकम् प्रभो तस्मात् कनीयसम्पुत्रम् न दास्येतव पार्थिव प्रायेण हि नरश्रेष्ठज्येष्ठाः पितृषुवल्लभाः मातॄणाम् च कनीयांसस्तस्माद्रक्ष्ये कनीयसम् उक्तवाक्ये मुनो तस्मिन्मुनिपत्न्याम् तथैव च शुनशेपस्वयम् राममध्यमो वाक्यमब्रवीत् पिता ज्येष्ठमविक्रेयम् माता चाहकनीयसम् विक्रेयम् मध्यमम् मन्ये राजपुत्रनयस्व माम् अथ राजा महाबाहो वाक्याम् ब्रह्मवादिनः हिरण्यस्य सुवर्णस्य कोटिभिः रत्नराशिभिः गवांशतसहस्रेण शुनः शेपन्नरेश्वरः परमप्रीतो जगामरघुनन्दना अम्बरीषस्तु राजर्षीरथमारोप्य सत्वरः शुनः शेपम् इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये बालकाण्डे एकषष्टितमः सर्गः